श्रीमन महाभारतम् आदिपर्वणि चैत्ररथ पर्वण्यौर्ववारणे अष्टसप्तत्यधिकशततमो अध्यायः ब्राह्मण्युवाच नाहम् गृह्णामि वस्ताता दृष्टिर्नास्मि रुषान्विता अयम् तु भार्गवो नृणमुरुजः कुपितो तेन चक्षुंषि वस्ताता व्यक्तम् कोपान् महात्मना स्मरता निहतान् बन्धूना दत्तानि न गर्भावपि यदा यूयम् भृगूणाम् घ्नतपुत्रकाः तदाऽयमूरुणा गर्भोमया धृतः षडङ्गश्चाखिलो वेदयिमं गर्भस्थमेवः विवेशभृगुवंशस्य भूयः प्रियचिकीर्षया सोऽयं पितृवधाद् व्यक्तम् क्रोधाद् वो हन्तुमिच्छति तेजसा दिव्येन चक्षूंषि मुषितानिवः तमे यूयं याचध्वमौर्वम् मम सुतोत्तमम् अयं वः प्रणिपातेन तुष्टो दृष्टि प्रमोक्ष्यति वसिष्ठ उवाच मुक्तास्तत सर्वे राजानस्ते तमूरुजम् ऊचुः प्रसीदेति तदा प्रसादम् च चकारसः अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः स इति विप्रर्षिरूरुम् भित्त्वा व्यजायत चक्षुंशि प्रतिल्ध्वा चमुस्तो नृपा भागवस्तु मु निर्मेलोकम